अथ दशमोऽध्यायः मार्कण्डेयस्य शिवेन वरप्रदानम् सूत उवाच स एवमनुभूयेदम् नारायणविनिर्मितम् वैभवं योगमायाया मेव शरणं ययौ मार्कण्डेय उवाच प्रपन्नोऽस्म्यङ्घ्रिमूलं ते प्रपन्नाभयदं हरे यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया सूत उवाच तमेवं निभृतात्मानम् वृषेण दिविपर्यटन् रुद्राण्या भगवान् रुद्रो ददर्शस्वगणैर्वृतः अथो मातमऋषिं वीक्ष्य गिरिशम् समभाषत पश्येमम् भगवन् विप्रम् निभृतात्मेन्द्रियाशयम् निभृतोदझषव्रातम् वातापाये यथार्णवम् कुर्वस्य तपसः साक्षात् संसिद्धिम् सिद्धिदू भवान् श्रीभगवानुवाच नैवेच्छत्याशिषः क्वापि ब्रह्मिर्मोक्षम्युता भक्ति पर भगवती लब्धवान्पुष अथा संविदिश्यामो भवान्े ते न साधुना अयं हि परमूलाभो नृणाम् साधुसमागमः सूत उवाच इत्युक्त्वा तमुपेयाय भगवान् स सताम् गतिः ईशानः सर्वविद्यानामीश्वरः सर्वदेहिनाम् तयोरागमनं साक्षादीशयोर्जगदात्मनोः न वेद रुद्धधीवृत्तिरात्मानं विश्वमे च भगवांस्तदभिज्ञाय गिरीशो योगमायया आविशत्तद्गुहाकाशम् वायुश्चिद्रमिवेश्वरः आत्मन्यपि शिवम् प्राप्तम् तडित्पिङ्गजटाधरम् त्र्यक्षम् दशभुजम् प्रां सुमुद्यन्तमिव भास्करम् व्याघ्रचर्माम्बरधरम् शूलखट्वाङ्गचर्मभिः अक्षमालाडमुरुकपालासि धनुः सः बिभ्राण सहसा भात विचक्ष्य हृदि विस्म कि सधि विर मुल्य दृशे सगणं सोमयागत रुद्रम् त्रिलोकैकगुरुम् ननाम शिरसा मुनिः तस्मै सपर्यां व्यदधात्सगणायसहोमया स्वागतासनपाद्यार्घ्य गन्धस्रग् धूपदीपकैः आह चात्मानुभावेन पूर्णकामस्य ते विभो करवाणि किमीशान येनेदम् नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च रजोजुषेप्यघोराय नमस्तुभ्यं तमोजुषे सूत उवाच एवं स्तुतः भगवान् आदिदेवः सताम् गतिः परितुष्टः प्रसन्नात्मा प्रहसंस्तमभाषत त्रीभगवानुवाच वरम् वृणीश्वनः कामम् वरदेशा वयम् त्रयः अमोघं दर्शनं येषाम् मर्त्यो यद्विन्दते मृतम् ब्राह्मणाः साधवः शान्ता निःसङ्गाभूतवत्सलाः एकान्तभक्ताः यस्मासु निर्वैरास्समदर्शिनः सलोकालोकपालास्तान् वन्दन्त्यर्चन्त्युपासते अहं च भगवान् ब्रह्मा स्वयं हरिरीश्वरः नते ते मय्यच्युते जे च भिदामण्वपि चक्षते नात्मनश्च जनस्यापि तद्युष्मान्वयमीमहि न ह्यम्मयानि तीर्थानि न देवाश्चेतनूज्झिताः ते पुनञ्चुरुकालेन यूयम् दर्शनमात्रतः ब्राह्मणेभ्यो नमस्यामो ये स्मद्रूपं त्रयीमयम् बिभ्रत्यात्मसमाधानतपःस्वाध्यायसंयमैः श्रवणाद्दर्शनाद्वापि महापातकिनोऽपि वः शुद्धेरन्नन्त्यजाश्चापि किमु सम्भाषणादिभिः सूत उवाच इति चन्द्रललामस्य धर्मगुह्योपबृंहितम् वचोमृतायनमृषिर्नातृप्यत्कर्णयोः पिबन् सचिरम् मायया विष्णोर्भ्रामितः कर्षितो भृशम् शिववागमृतध्वस्तक्लेशपुञ्जस्तमब्रवीत् ऋषिरुवाच अहो ईश्वरलीलेयं। दुर्विभाव्या शरीरिणाम् यन्नमन्ति शितव्यानि स्तुवन्ति जगदीश्वराः धर्मं ग्राहयितुम् प्रायः प्रवक्तारश्च देहिनाम् आचरन्त्यनुमोदन्ते क्रियमाणम् स्तुवन्ति च नैतावता भगवतः स्वमायामयवृत्तिभिः न दुश्येतानुभावस्तैर्मायिनः कुहकं यथा सृष्ट्वेदं मनसा विश्वमात्मनानुप्रविश्ययः गुण कुरद्भिरा कर्ते स्वनदुग्य तस्मै नमो भगवते त्रिगुणा गुणात्मने केवलायद गुरव ब्रह्ममूर्तये कं वृणेनु परम् भूमन् वरन्त्वद्वरदर्शनात् यद्दर्शनात् पूर्णकामः सत्यकामः पुमान् भवेत् वरमेकं वृणेथापि पूर्णात्कामाभिवर्षणात् भगवत्यच्युताम् भक्तिम् तत्परेषु तथा सूत उवाच स्थितोऽभिष्टुतश्च मुनिना सूक्तया गिरा तमाह भगवान् शर्वः शर्वयाचाभिनन्दितः श्रीभगवानुवाच कामो महर्षे सर्वोऽयम् भक्तिमांस्त्वमधोक्षजे आकल्पान्तात् यशः पुण्यमजरामरता तथा ज्ञानम् त्रैकालिकम् ब्रह्मन् विज्ञानम् च ब्रह्मवत् शस्विनो भूयात् पुराणाचार्यतास्तु ते सूत उवाच एवं वरान् समुनये दत्वागात् त्र्यक्षईश्वरः देव्यै तत्कर्म कथयन्ननुभूतं पुरा मुना सोऽप्यवाप्तमहायोगमहिमा भार्गवोत्तमः विचरत्यधुनाप्यद्धा हरावेकान्ततां गतः तत्ते अनुभूतं भगवतो अवर्णतमेंत मकंडेयमतागवत मैवद्भुतचद मायासं मैसंश्रुतिम अनाद्यावर्तितम् ऋणाम् कादाचित्कम् प्रचक्षते य एवमेतद्भृगुवर्यवर्णितम् रथाङ्गपाणिरनुभावभावितम् संश्रावयेत् संुुयादु तकर्माशय संस्रुतिर्भवते महापुराणे पारमहंसितायादशस्कंधे दशमोध्याय